श्रीहरये नमः अथ पञ्चदशोऽध्यायः श्रीसुक उवाच ततश्च पौकण्ठवयश्रितौ व्रजे बभूवस्तुतौ पशुपालसम्मतौ गाश्चारयन्तौ सगिभिः समं पधैर्बृन्दावनं पुण्यमतीव तन्माधवो वेणुमुदीरयन्वृतो गोभैर्गृणद्भिः स्वयसो भलान्वितः पशून् पुरस्कृत्पसव्यमाविशद् विहर्तु कामकुसुमाकरं वनं तन्मञ्जुगोशालिमृगद्विजाकुलं महन्मनः प्रत्यपयः वातेन ज्योष्टं सतपत्रघन्ति न निरीक्षरन् भगवान् मनो दधे स तत्र तत्रारुणपल्लवश्रियान् फलप्रसूनोरुभरेण बाधयोः स्पृशिकान् वीक्ष वनस्पतेन्मुता स्मयन्निवाह अग्रजमादिपूरुषः श्रीभगवानुवाच अहो अमी देववरामरार्चितं पादाम्बुजं ते सुमनःपलार्हणं नमन्त्युपाधाय शिखाभिरात्मन तमोपहत्यैतरुजन्म यत्कृतं एते लिनस्तव यशोकिलोकतीर्थं गायन्त आतिपुरुषानुपथं भजन्ते प्रायो अमी मुनिगणा भवदीयमुख्या घोटं वनेऽपि न जहत्यनघात्मदैवं नृत्यन्त्यमीसिकिनयि मुदाहरिण्य कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन सूक्तैश्च कोकिलगणागृहमागधाय धन्या वनौकसयियान् कि सतां निसर्गः धन्येयं मध्यधरणि तृणभिरुधस्त्वत्पादस्पृशो द्रुमलताकराभिमृष्टाः नद्योद्रय गगमृगासदयाबलोकैः गोप्योऽन्तरेण भुजयोरपि यः स्पृहा श्रीः श्रीसुक उवाच एवं वृन्दावनं श्रीमत्कृष्णप्रीतमना पशून् रेमे सञ्चारयन्नध्रे सरिद्रोतस्सु सुसानुगः क्वचित् गायदि गायत् सुमदान्धालिषु क्वचिच्य कलहंसानाम् अनुकूजति कूजितम् अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् मेघगम्भीरया वाचा नामभिर्दूरगान् पशून् क्वचिदाह्वयति प्रीत्या गोपालमनोज्ञया चकोरक्रौञ्च चक्राह्वा भारजांश्च बर्हिणः अनूरौति स्म सत्त्वा न भीतवत् व्याघ्रसिह्मयोः क्वचित् क्रीडा स्वयं विश्रमयत्यार्यम् पादसंवाहनादिभिः नृत्यतो गायत क्वापि वल्गतो युध्यतो मिदः गृहीतहस्तौ गोपालान् प्रससंसतुः क्वचित् पल्लवतल्पेषो नियुद्धश्रमकर्षितः वृषमूलाश्रयस्ते गोबोत्सङ्गोपभर्हणः पादसंवाहनं चक्रो केचिस्तस्य महात्मनः अपरेहतपाप्मानो व्यजनैः समविजयन् अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः गायन्ति स्म महाराज स्नेहक्लिन्नधियः सनैः एवं निगूढात्मगतिस्वमायया गोभात्मजत्वं चरितैर्विडम्भयन् रेमे रमालाळितपादपल्लवो ग्राम्यै समं ग्राम्यवती स चेष्टितः श्रीधामा नाम गोपालो रामकेशवयोसखा शुभलस्तोककृष्णाध्या गोपाः प्रेम्णेधम ब्रुवन् राम राम महाभाहो कृष्णदुष्टनिभर्हणा इतो विदूरे सुमहत् वनं तालालिसङ्कुलं फलानि तत्र भूरिणि पतन्ति पतितानि च सन्ति किं त्वववरुद्धानि धेनुकेन दुरात्मना सोऽति वीर्योऽसुरो राम हे कृष्णकररूपदृक् आत्मतुल्यभलैरन्त्यैर् ज्ञातिभिर्बहुभिर्व्रतः तस्मात् कृतनराहाराद्भीतैर्नभि अमित्रहन्न सेव्यते पशुगणैर्पक्षिसङ्घैर्विवर्जितं विद्यन्ते भुक्तपूर्वाणि फलानि सुरभीणि च एष वै सुरभिर्गन्धो भिक्षुसीनोपगृह्यते प्रयच्छता निनः कृष्ण गन्तलोभितचेतसां वाञ्छास्तिमहती राम गम्यतां यदि रोचते एवं सुहृद्वच श्रुत्वा सुहृत्प्रियचिकीर्षया प्रहस्य जग्मतुर्घोपैर् प्रतोताळवनं प्रभो बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् फलानि पातयामास पदङ्गजयिवौजसा फलानां पततां शब्दं निसंज्ञासुररासभः अभ्यधावत्क्षितितलं सनगं परिकम्पयन् समेत्य तरसप्रत्यग्द्वाभ्यां पद्भ्यां बलं बली निहत्यो रसिकाशब्दं मुञ्चन् पर्यशरत्कलः पुनरासाद्यसंरब्ध उपक्रोष्टा पराक्सितः शरणावपरौ राजन् भलाय प्राक्षिपदृशा सतं गृहीत्वा प्रभदोर्भ्रामयित्वैकपाणिना शिक्षे भृणराजाग्रे ब्राह्मणत्यक्तजीवितं ते हा तेनाहतो महातालो वेपमानो बृहश्चिराः पार्श्वस्थं कम्पयन् भग्न स चान्यं सोऽपि चापरं बलस्य लीलयोत्सृष्ट करदेहकहताः कथाः तालाश्च कम्बिरे सर्वे महावातेरिता इव नैतच्चित्रं भगवती ह्यनन्ते जगतीश्वरे वोत यस्मिन् तन्दुष्वङ्गयता ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये सर्वे संरब्धा हत बान्धवाः कृष्णो रामस्य नृपलीलया गृहीतपश्चाश्चरणान् प्रागिणो दृढराजसु फलप्रकरसङ्कीर्णं दैत्यदेहैर्घतासुभिः रराजभूसदालाग्रैर्घैनैरिवनभस्तलं तयोस्तत्सु महत्कर्म निशाम् विबुधादयः मुमुच पुष्पवर्षाणि शक्रोर्वाद्यानि तुष्टुभुः अत ताळफलान्याधन् मनुष्यो गतसाध्वसः तृणं च पसवश्चेरोर्हधेनुगाननी कृष्णकमलभद्राक्ष पुण्यश्रवणकीर्तनः स्तूयमानोनुगैर्गोपये शाग्रजो व्रजमाव्रज तं गोरजश्चुरितकुन्तलभदर्ह अन्यप्रसूनरुचिरेक्षणचारुहासं वेणुं क्वणन्तं मनुघैरनुगीतकीर्तिं गोप्यो दिदृक्षितदृशोऽभ्यगमन् समेताः पीत्वा मुगुन्तमुखसारगम् अक्षिभृङ्गैः पीत्वा मुकुन्तमुकसारगमक्षिभृङ्गैः तापं जकुर्विरखचं व्रजयोक्षितोऽग्नी तत्सत्कृतिं समतिगम्यविवेशगोष्ठं सौव्रीटहासविनयं यदपाङ्गमोक्षं तयोर्यशोतारोहिण्यौ पुत्रयोः पुत्रवत्सले व्यधत्तां परमाशिशः कदा त्वा न श्रमौ तत्र मज्जनोन्मर्दनादिभिः नीवीं वसित्वा रुचिरां दिव्यश्रग्न्तमण्डितौ जनन्युबहृतं प्राश्य स्वाध्वन्नमुपलालितौ सुखं सुक्षुपतुर्व्रजे एवं स भगवान् कृष्णो बृन्दावनचरक्वचेत् ययो राममृते राजन् काळिन्दीं सखिभिर्व्रतः अधावश्च गोपाश्च निदाघातपपीडिताः दुष्टं जलं पपुस्तस्या स्त्रुशार्ता विषदूषितं विशाम्बस्तदुपस्पृश्य दैवोपहतचेतसः निपेतुर्व्यसवः सर्वे सलिलां ते कुरु द्वः वीक्षतान् वैतथाभूतान् कृष्णो योगेश्वरेश्वरः ईक्षयामृतवर्षिण्या स्वनातान् समजीवयन् ते सम्प्रति तस्मृतयन् समुत्थाय जलान्तिकात् आसन् सुविस्मिताः सर्वे विक्षमाणाः परस्परम् अन्वमं सततत्राजन् गोविन्दानुग्रहेक्षितं पीत्वा विषं परे पुनरुत्थानमात्मनः इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्धे धेनुकावधो नाम पञ्चदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजकी जय